हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे सप्तसप्ततितमः सर्गः परमवता निकुम्भस्य वध निकुम्भ भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् प्रदहन्निव कोपेन वानरेन्द्रम् उदैक्षत तत् श्रद्धां दत्तपञ्चाङ्ग गोङ्गुलम् शुभम् आदरे परिघम् धीरो महेन्द्र शिखरोपमम् हेम पट्च परिक्षिप्तम् वज्रविद्रुमभूषितम् यमदण्डोपमम् भीमम् रक्षसाम्भयनाशनम् तमाविद्य महातेजा चक्रवध्वज सम्मोजसम् निननाद् निकुम्भो भीमविक्रमः पुरोगतेन निष्केन भुजस्थैरङ्गदैरपि कुण्डलाभ्यां चित्राभ्याम् बालया च सचित्रया निकुम्भो भूषणैर्भाति तेन तेनस्मा परिघेण च यथेन्द्रे धनुष्या मेघ स स्फोट व्त महात्मन प्रज्ज्वाला से घोष पावक नगरियातिया गंधर्वभवनोत्तम सारागण नक्षत्र स्वचंद्र सहाग्रह निकुंभ पिघाघूर्ण भ्रमती व नभस्थल दुरास दुराशे परि भरण प्रभ क्रोधेन्धनो निकुंभा युगांतावोत्थि राक्षसवाणरच्चा न शेकुस्पन्दुम भयात हनुमान तस्थो प्रमुख तो बली पिघोपम बहुस् भास्कर प्रभं बलिबलवतस्तस्य पातया मा स वक्षसि स्थिरे तस्य रसि व्यूढे परिघ शतधाकृतः विकीर्यमाण सहसा उल् शतमिवाम्बरे सतुतेन प्रहारेण न चाल महाकपिः परिघेण समाधूतो यथा भूमिः चले चलह, तथाभि हतस्तेन हनुमान् प्लवगोत्तमः मूर्तिं संवर्तयामास बले नाति महाबलः तम् उद्यम्य महातेजा निकुम्भो ऋषि वीर्यवान् अभिचिक्षेपवेगेन वेगवान् वायुविक्रमः तत्र पुस्फोटवर्मास्य प्रसुश्राव च शोणितम् मुष्टिना तेन सञ्जन्ये मेघे विद्युत् दिवोत्थितः स तेन प्रहारेण निकुम्भो विचाल च स्वस्थश्चापि निजग्राह हनुमन्तं महाबलं चुक्रशुश्च तदा सङ्ख्ये भीमं लङ्का निवासिनः निकुम्भे नोद्यतं हनुमन्तं महाबलम् स तथा ह्रियमाणोऽपि हनुमान्ते न रक्षस आजघाणा निलसु वज्रकल्पेन मुष्टिना आत्मानं मोक्षयित्वाथ क्षितावभ्येव पद्यत हनुमान्मथा नुन्म उन्ममातासु निकुम्भम् मारुतात्मज निक्षेप्य परमायत्तु निकुम्भं निष्पिपेश च वेगेन पपातो रसिवेगवान् परिगृह्य च बाहुभ्याम् परिवृत्य शिरोधराम् उत्पाटयामास शिरो भैरवम् नदतो महत् अथनि न निकुम्भे पवनसुप्रे नरणे बभूव युद्धम् दशरथसुरराक्षसेन्द्रसून्वो भुजतरमागतरुषयो सुभीमम् वपेते तु जीवेन्द्र कुम्भस्य रुष्टा विनेन्दुप्लवङ्गादिश स्वस्वनुष्ठ चचालेव चोर्वीपपातेव साध्यो बलम् राक्षस्वानाम् इत्या श्रीमद् रामायणे वाल्मीकि अधिकवियुद्धकाण्डे सप्तसप्ततितमः सर्गे श्रीसीतारामचन्द्रार्पणमस्तु